अष्टादशोऽध्यायः राक्षस्युवाच जरा नामास्मि भद्रन्ते राक्षसी कामरूपिणी तव वेऽस्मनि राजेन्द्र पूजितान्यवसं सुखम् गृहे गृहे मनुष्याणाम् नित्यम् तिष्ठामि राक्षसी गृह देवीति नाम्ना वै पुरा सृष्टा स्थापिता दिव्यरूपिणी व्योमाम् भक्त्या लिखेत् कुड्ये सपुत्राम् यवनान्विताम् गृहे तस्य भवेद्वृद्धिरन्यथा क्षयमाप्नुयात् त्वद्गृहे तिष्ठमानाहम् पूजिताहम् सदा लिखिता चैव कुट्येषु पुत्रैर्बहुभिरावृता गन्धपुष्पैस्तथा धूपैर्भक्ष्यभोज्यैः सुपूजिता साहम्प्रत्युपकारार्थम् चिन्तयाम्यनिशम् तव तवे मे पुत्रसकले दृष्टवत्यस्मि धार्मिक संश्लेषिते मया दैवात्कुमारः समपद्यत तव भाग्यान्महाराज हेतुमात्रमहम् त्विहा तस्य बालस्य यत्कृत्यम् तत्कुरुष्व न मम नाम्ना च लोकेऽस्मिन् ख्यात एष भविष्यति मेरुम् वा खादितुम् शक्ता किम् पुनस्तव बालकम् गृहसम्पूजनात्तुष्ट्या मया प्रत्यर्पितस्तव श्रीकृष्ण उवाच एवमुक्त्वा तु साराजंस्तत्रैवान्तरधीयत ससङ्गृह्य कुमारम् तम् प्रविवेशगृहम् नृपः तस्य बालस्य यत्कृत्यम् तच्चकारनृपस्तदा आज्ञापयच्च राक्षस्य मगधेषु महोत्सवम् तस्य नामाकरोच्चैव पितामहसमः पिता, पिता। जरयासन्धितो यस्माज्जरासन्धो भवत्ययम् सोवर्धतमहातेज मगधाधिपतेः सुतः प्रमाणबलसम्पन्नो हुताहुतिरिवानलः मातापित्रोन्नन्दिकरः शुक्लपक्षे यथाशसी इति इतिमहाते सभापर्वण राजरंभपर्वि जरासंधोत्पत अष्टाद्याय